शिवताण्डवस्तोत्रम् पिवताण्डवस्तोत्रम् जटाटविकलजलप्रवाहपावितस्थले चकारचण्डताण्डवं तनो पुनः शिव शिवम् जटाकटाह सभ्रमभ्रमन्निलिम्पनिर्धरी विलोलवी किशोरचन्द्रशेखरे रतिप्रतिक्षणं मम राधरेन्द्रनन्दिनीविलासबन्धुबन्धुर पुरद्दिगन्तसन्तति प्रमोदमानमानसे कटाक्षधोरणी निरुद्धदुर्धरापदी क्वचित् दिगम्बरे मनो विनोदमेतु वस्तुनि जटाभृजङ्गपिङ्गलस्फुरध्वनामणि प्रभा कदम्ब कुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे मदान सिंधुस्ुरत्पुत्तरी दुरे मनो विनोदुतर्सूत भर्तरी सहस्रलोचन प्रभृत शेखर धूलि प्रसूनभूलिधोरणी विदूसराङ्गपीठभो भुजङ्गराजमालयानि बद्धजाटचूटकः श्रियै चिराय जायतां चकोरबन्धुशेखर ललाटचत्वरज्वलज्जनञ्जयस्पुलिङ्गभा निपीतपञ्चसायकं न मन् निलिम्पनायकम् सुधामयूखलेखया विराजमानशेखरम् महाकपालिसम्पदे शिरो जटालमस्तु नः करालभालपट्ट ध गद्ध गद्ध गज्वल धनञ्जयाहुति कृत प्रचण्ड पञ्चसायके धराधरेन्द्र कुचाग्रचित्रपत्रक प्रकल्पनैक शिल्पिनी त्रिलोचने रतिर्ममा नवीनमेघमण्डली पुर भूनिशीतिनीतमः प्रबन्धबद्धकन्धरः निलिम्बनिर्धरीधरस्तनोतु कृत्तिसिन्धुरः कलानिधानबन्धुरः श्रियं जगद्धुरन्धरः प्रफुल्लनीलपङ्कज प्रपञ्चकालिमप्रभा वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्दरं स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे सर्वंगला कलाकदंब मंजरी रस प्रवाह मधुरी विजृणा मधुव्रतम स्मरातक गजात कांधकाक यद्वद प्रविभ्रम प्रमद्भुजङ्गमश्वस विनिर्गमक्रमत्पुरत्करालहालहव्यवामिद्दिद्वदन् मृदङ्गतुङ्गमङ्गल न्द मौक्तिकस्रजो करिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयो तृणारविन्द चक्षुषो प्रजामही महेन्द्रयो समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम् लिम्पनिर्जरी निकुञ्जकोटरे वसन् विलोललोललोचनो ललामभालग्नकः शिवेति मन्त्रमुच्चरन् त्यमेवमुक्तमुक्तमुत्तमं स्तवम् पठन् स्मरन् ब्रुवन्नरो विशुद्धिमेति सन्ततम् हरे गुरौ सुभक्तिमाशु याति विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम् पूजावसानसमये दशवक्त्रगीतम् यः शम्भुपूजनपरम् पठति प्रदोषे तस्य स्थिराम्रजगजेन्द्र तुरङ्गयुक्ता लक्ष्मीम् सदैव सुमुखीम् प्रददाति शम्भु इति श्रीरावणकृतम् शिवताण्डवस्तोत्रम् सम्पूर्णम्